खण्डमण्डलाकारम् व्याप्तं येन चराचरम् तत्पदं दर्शितं येन तस्मै श्रीगुरवे तस्मै श्रीगुरवे नमः गुरुर्ब्रह्मा गुरुर गुरुर्देवो गुरुर महेश्वरः गुरुरेव परं ब्रह्मा तस्मै श्री स्थावरं जङ्गमं व्याप्तं यत्किञ्चित् तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ेन तस्मै गुरवे नमः सर्वश्रुतिशिरोरत्न विराजितपदाम्बुजः वे वेदान्ताम्बुजसूर्योयः तस्मै श्री शाश्वतः शान्तो व्योमातीतो निरञ्जनः बिन्दुनादकलातीतः तस्मै श्रीगुरवे नमः ज्ञानशक्तिसमा मुक्तिप्रदाता च तस्मै श्रीगुरवे नमः अनेकजन्म सम्प्राप्त कर्मबन्धविदाहिने आत्मज्ञानप्रदानेन तस्मै श्री गुरवे नमः शोषणं भवसि दोश्च ज्ञापनं सारसंपदः गुरोर्पादोदकं सम्यक् तस्मै श्री तस्मै गुरवे नमः मन्नाद श्रीजगन्नाथः मद्गुरु श्रीजगद्गुरुः मदात्मा सर्वभूतात्मा तस्मै गुरवे त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव